गणानाम् त्वा गणपतिम् गणपतिगम् हवामहे गणपतिमिति गणापतिम् हवामहे कविम् कविम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः तमम् ज्येष्ठराजम् ब्रह्मणाम् ज्येष्ठराजमिति ज्येष्ठराजम्णाम् ब्रह्मणः ब्रह्मणःपतेः पत आनः न शृण्वन् शृण्वन् नोतिभिः कोचिभिः सीद कोचिभिरित्योतिभिः सीदसाधनम् साधनमिति साधनम् नमस्ते ते रुद्र रुद्रमन्यवे ए मन्यव उतो उतो ते ए उतो यित्युतो त इषभे इषभे नमः न मायीति नमः नमस्ते ते अस्तु अस्तु धन्वने धन्वने बाहुभ्याम् बाहुभ्यामुत बाहुभ्यामिति बाहुभ्याम् उत ते ए ते नमः न मायीति नमः या ते ए इषुः इषु शिवतमा शिवतमा शिवम् शिवतमेति शिवतमा शिवं बभूव बभूवते ते धनुः धनुरिति धनुः शिवा शरव्या शरव्याया या तव तव भतया तयानरुद्रा रुद्रमृडया मृडयेति मृदया या ते के रुद्रा रुद्रशिवा शिवा तनुः धनुर्घोरा अघोरापापकाशिनी अपापकाशिनीत्यपापकाशिनी तयाना नस्तनुवा तनुवा शन्तमया शन्तमया गिरिशन्त शन्तमयेतिशन्तमयः गिरिशन्ताभि गिरिशन्ते चिगिरिशन्त अभि चाकशीः चाकशीःति चाकशीः यामिषम् इषुं गिरिशन्त गिरिशन्त हस्ते गिरिशन्ते चिगिरिशन्त हस्ते बिभर्षि बिभर्ष्यस्तभे अस्तभैत्यस्तभे शिवाङ्गिरित्र गिरित्र तां गिरित्रेति गिरित्र तां कुरु कुरु मा मा हिदुंसेहिदुंशे पुरुषं पुरुषं जगति जगदिति जगति शिवेन मचसा वचसा त्वा त्वा गिरिश गिरिषाच्छा अच्छा वदामसि वदामसीति वदामसि यथा नः नः सर्वम् सर्वमिति विजगत् जगदजक्ष्मम् अयक्ष्मगुं सुमनाः सुमना असत् सुमनादिति सुक्मनाः असदित्यसत् अध्यवोचत् अवोचदधिवक्ता अधिवक्ता प्रथमः अधिवक्तेत्यधिवक्ता प्रथमो दैव्यः दैव्यो भिषक् भिषिषक् अहेगुंश्च च सर्वान् सर्वान् व्यम्भयन् व्यम्भयन्सर्वाः सर्वाश्च च यातु धान्यः यातु धान्य इति यातु धान्यः आसौ यः त्यः स्थाम्रः ताम्रो अरुणः अरुण उत उष बभ्रो बभ्रः सुमङ्गलः सुभङ्ग इति सुमङ्गलः ये च क्षेमां विमागुं रुद्राः रुद्रा, रुद्रा अभितः अभितो दिक्षु दिक्षुश्रिताः श्रितासहस्रशः सहस्रशो वा सहस्रश इति सहस्रशः अवैषाम् एषा गुंहेडः हेड इमहे इमह इतीमहे आसौयः यो वसत्पति अवसत्पतिनेलग्रीवः अवसत्पतीत्यवसत्पति नेलग्रीवो विलोहितः नेलग्रीवैति नेलग्रीवः विलोहित इति विलोहितः उतैनम् एनम् गोपाः गोपा अधिशन् गोपा इति गोपाः अधिशन्नदृशन् अधिषन्नुदहार्यः उदहार्य इत्युदाहार्यः कुतैनम् एनम् विश्वा विश्वा भूतानि सह स दृष्टः दृष्टो मृडयाति मृडयाति नः अस्तु अस्तु नेलग्रीवाय नीलग्रीवाय सहस्राक्षाय नीलग्रीभायैति नीलग्रीभाय सहस्राक्षाय मेधुषे सहस्राक्षायैति सहस्र अक्षाय मेधुष इति मेधुषे अथो ये अथो इत्यथो ये अस्य अस्य सत्त्वानः सत्त्वानोऽहम् अहं अकरं नमः नम नमः प्रमुच पञ्च धन्वनः धन्वनस्त्वं त्वमुभयोः उभयोरार्नियोः आर्त्नियोर्द्यां द्यामितिद्यां याश्च त्यके हस्ते हस्त ऋषवः पराः पराताः सा भगवः भगवो वप भगव इति भगवः वपेति वप अवतत्यधनुः अवतत्येत्यव तद्यधनस्त्वम् त्वगुं सहस्राक्ष सहस्राक्षशतेषु धे सहस्राक्षेतिसहस्रा अक्षतेषु धगिति शत इषुधे निषीर्यशद्यानाम् निषीर्येति निशीर्य शल्यानाम् मुखा मुखा शिवः शिवो नः सुमना, सुमना भव सुमनादिति सुमना भवेति भव वेद्यम् धनुः वेद्यमिति वेद्यम् धनुः कपर्दिनः कपर्दिना विशल्यः विशल्यो बाणवानि विशल्य इति वीषल्यः बाणवागुम् उत बाणवानिति बाणावाणे उतेत्युत अने सन्नस्य अस्ये विषम आभुः आभुरस्य अस्य निषङ्गखचिः निषङ्गखिरिति निषङ्गखचिः याते एतिः हेतर्मेढुष्टमा मेढुष्टमाहस्ते मेढुस्तमेति मेढुः उत्तमास्ते बभूव बभूवते ते धनुः धनुरिति धनुः तयास्मान् अस्मान् विश् विश्वतास्त्वम् त्वमयक्ष्मया अयक्ष्मया परि परिभुज भुवेति भुज नमस्ते ते अस्तु अस्त्वायुधाय आयुधाय नातय अनातताय धृष्णवे अनातथायेत्यना तथाय जृष्णव इति जृष्णवे उभाभ्यामुत उत ते हे नमः नमो बाहुभ्याम् बाहुभ्याम् तव बाहुभ्यामिति बाहुभ्याम् तव धन्वने धन्वनैः धन्वने परिते हे धन्वनः धन्वनो हेतिः हेतिरस्मान् अस्मान्वृणत्सु वृणत्व विश्वतः विश्वत इति विश्वतः अथो यः अथो इत्यथो य एषोधिः ऋषुधिस्तव ऋषुधिरिति तव हारे हरे अस्मति अस्मन् निधेहितम् तमेघवे हिरण्यबाघवे सेनान्ये हिरण्यबाघिति हिरण्यबाघभिः सेनान्ये दिशाम् सेनान्य इति सेनान्ये दिशाम् पतये पतये नमः नमो नमः नमो वृक्षेभ्यः वृक्षेभ्यो हरिकेशेभ्यः हरिकेशेभ्यः पशूनां हरिकेशेभ्य इति हरिकेशेभ्यः पशूनां पतये पतये नमः न नमः नमः सस्मिजराय सस्पिञ्जराय कृषिमते कृषिमते पथीनां कृषिमत इति कृषिमते पतये पतये नमः नमो नमः नमो बभृषाय बभृषाय विव्याधिने विव्याधिनेऽन्नानां विव्याधिन इति वि व्याधिने अन्नानां पतये पतये नमः नमो नमः नमो हरिकेशाय हरिकेशायोपवीचिने हरिकेशायति हरिकेशाय उपवीचिने पुष्टानाम् उपवेचिन इत्युपवीचिने पुष्टाणाम् पतये पतये नमः नमो नमः नमो भवस्य भवस्य हेत्यै हेत्यै जगतां जगताम् पतये पतये नमः नमो नमः नमो रुद्राय रुद्राय तथा विने आतताविः क्षेत्राणाम् आतताविनैत्याह तथा विने क्षेत्राणाम् पतये पतये नमः नमो नमः नमः श्रोताय अहन्त्याय वनानां वनानां पतये पत ए नमः नमो नमः नमो रोहिताय रोहिताय स्थपतये स्थपतये वृक्षाणां वृक्षाणां पतये पत ए नमः नमो नमः नमो मन्त्रिणे ए मन्त्रिणे वा निजाय वा निजाय कक्षाणां कक्षाणां पतये पत ए नमः नमो नमः नमो भुवन्तये ए भुवन्तये वािवस्कृताय वादिवस्कृताय औषधीनां वादिवस्कृतायेति वादिव ओषधीनां पतये पतये नमः न मौ नमः उत्तम उच्चैर्घोषाय उच्चैर्घोषायाक्रन्दयते उच्चैर्घोषायेत्युच्चैः घोषाय आक्रन्दयति पत्तीनाम् आक्रन्दयत इत्याक्रन्दयते पत्थीनां पतये पतये नमः न नमः नमः कृत्नभीताय कृष्णभीताय धावधे कृष्णभीताय इति कृष्णभीताय धावधे सत्त्वनां सत्त्वधां पतये पतधे नमः नमः सहमानाय सहमानाय निव्याजिनेः निव्याधिन आव्याजिनीनां निव्याधिन इति निव्याजिनेः आव्याजिनी धाम् पतये आ व्यादिनीनामित्याह व्याजिनीनां पतघे नमः नमो नमः नमः ककुभाय ककुभायि निषङ्गिने निषङ्गिने स्तेनानां निषङ्गिन इति नि सङ्गिने स्तेनाम् पतये पतघे नमः नमो नमः नमो निषङ्गिने निषङ्गिन इषुधि मथे निषङ्गिन इति निजिने इषुधि मथे तस्कराणां पते तस्कराधां पतये पतधेनव नमो नमः नमो वञ्चते वञ्चते परिवञ्च्यते परिवञ्च्यते स्थायूनां परिवञ्चत इति परिवञ्च्यते स्थायूनां पतये पतधेनवः नमो नमः नमो निचेरवे निचेरवे परिचराय निचेरव इति निधैरवे परिचराय अरण्यानां परिचराय इति परिचराय अरण्यानां पतये पतये नमः नमो नमः नमः शृकाविभ्यःकाविंसद्भ्यः सृकाविंसद्भ्योताम् जिघाभुंसद्यिघा पुंसतेभ्यः वृष्णताम् पतये पतये नमः नमो नमः नमोऽश्रीमद्भ्यः अधिमद्भ्यो नक्तम् अधिमभ्यलित्यश्रीमतेभ्यः भ्यः चरद्भ्यः प्रकृन्तारद्भ्यगि प्रकृन्तानां पतये प्रकृन्तानामिति प्राकृन्तानां पतये नमः नमो नमः गिरितराय गिरितराय कुलुञ्जानां पतये पतये नमः न म इषुमद्भ्यः इषुमद्भ्यो धन्भाविभ्यः इषुमध्य इति इषुमतीभ्यः धन्भाविभ्यश्चिभ्य इति धन्भावीभ्यः समः वो नमः न मो नमः नम आसन्वानेभ्यः आसन्वानेभ्यः प्रखिदधानेभ्यः आसन्वानेभ्य इत्याहे प्रथिदधानेभ्यश्च प्रचिदथानेभ्यञिति प्रचिदथानेभ्यः शभः को नमः न मो नमः नमः आयच्छद्भ्यः आयच्छद्भ्यो विसृजद्भ्यः आयच्छद्यगित्यायच्छति विसृजतेभ्यःभ्यःभ्यः अस्य जगित्यस्यतेभ्यः मिथ्यद्भ्यश्च विद्यद्भ्यति विद्यतेभ्यः शवः वो नमः न मो नमः नमासीनेभ्यः आसीनेभ्य शयानेभ्यः शयानेभ्यश्च शवः वो नमः न मोनमः नमः स्वपद्भ्यः स्वपद्भ्यो जागृद्भ्यः स्वपद्भ्यदिति स्वपतेभ्यः व्याग्रद्भ्यश्च व्याग्रद्भिति जागृतेभ्यः शवः मो नमः न नमः नमास्तिष्ठद्भ्यः तिष्ठद्भ्यो धावद्भ्यः तिष्ठद्भिष्ठतीभ्यः धावद्भ्यश्च धावद्भि धावतेभ्यः तव गो नव नमो नमः नमः सभाभ्यः सभाभ्यः सभापतिभ्यः सभापतिभ्यश्च सभापतिभ्य इति सभापतिभ्यः तव गो नमः नमो नमः न अश्वेभ्यः अश्वेभ्योऽश्वपतिभ्यः अश्वपतिभ्यश्च अश्वपतिभ्य इत्यश्वपतिभ्यः कभः वो नमः न मयिति नमः नम आव्याजनीयेभ्य आव्यादिनीयेभ्यो विविध्यन्तेभ्य आव्याधिनीयेभ्य इत्याह व्याचिनीयेभ्य विविध्यन्तेभ्यश्च विविध्यन्तेभ्य इति विध्यन्तेभ्यः कभः वो नमः न मो नमः न मुगणाभ्यः गुणाभ्यस्त्रिगुंहतीभ्यः त्रिगुंहतीभ्यश्च तवः वो नमः नभो नमः नमो भृक्षेभ्यः भृक्षेभ्यो गृच्छपथिभ्यः गृक्षपथिभ्यश्च गृक्षपथिभ्यगिति गृच्छपथीभ्यः तवः वो नमः नमो नमः नमो व्रातेयेभ्यः प्रातयेभ्यो व्रातपतिभ्यः प्रातपतिभ्यश्च प्रातपतिभ्यगिति व्रातपतीभ्यः तवः वो नमः नमो नमः नमो गणेभ्यः गणेभ्यो गणपतिभ्यः गणपतिभ्यश्च गणपतिभ्यञ्गणपतिभ्यः शवः भो नमः नभो नमः नभो विरूपेभ्यः विरूपेभ्यो विश्वरूपेभ्यः विरूपेभ्यञ्जिविरूपेभ्यः विश्वरूपेभ्यश्च विश्वरूपेभ्यनिति विश्वरूपेभ्यः चवः भो नमः न भो नमः नमो महद्भ्यः महद्भ्यः क्षुल्लकेभ्यः महद्भ्यदिति महतिभ्यः क्षुल्लकेभ्यश्च तवः वो नमः न मो नमः रथि नमो रथिभ्यः रथिभ्यो रथेभ्यः रथिभ्यगिति रथीभ्यः अरथेभ्यश्च तव वो नमः न मो नमः नमो रथेभ्यः रथे रथपतिभ्यः रथपतिभ्यश्च रथपतिभ्यैति रथपतीभ्यः तवः वो नमः न मो नमः नमः सेनाभ्यः सेनाभ्यसेधानिभ्यः सेनानिभ्यश्च सेनानिभ्यगितिषेधानिभ्यः तवः को नमः नमो नमः नमः क्षत्रिभ्यः क्षत्रिभ्यः सङ्ग्रह्येतृभ्यः क्षत्रिभ्यदिति क्षत्रिभ्यः सङ्ग्रहीतृभ्यश्च सङ्ग्रहीतृभ्यदिति सङ्ग्रहेतृभ्यः तवः को नमः नमो नमः नमस्तक्षभ्यः तक्षभ्यो रथकारेभ्यः तक्षभ्येतितक्षाभ्यः रथकारेभ्यश्च रथकारेभ्यदितिरथाकारेभ्यः तवः वो नमः नमो नमः नमः ना कुरालेभ्यः कुरालेभ्यः कर्मारेभ्यः कर्मारेभ्यश्च त्यवः वो नमः नमो नमः नमः पुजिष्टेयेभ्यः पुज्जिष्टेभ्यो ऋषादेभ्यः षुकृद्भ्यः इषुकृद्भ्यो धर्मकृद्भ्यः इषुकृभ्यगुकृतेभ्यः धर्मकृद्भ्यश्च धर्मकृभ्यग इति धर्मकृतेभ्यः शवः भो नमः नमो नमः नमो मृभजुभ्यः प्रगयुभ्यश्वनिभ्यः प्रगयुभ्यति मृगजुभ्यः श्वनिभ्यश्च नमः नमो नमः नमो भवाय भवाय च रुद्राय रुद्राय चरमः नमः शर्वाय शर्वाय च पशुपतये पशुपतये च पशुपतय इति पशुपतये चरमः नमो नीलग्रीवाय नीलग्रीवाय च नीलग्रीवाजीतिनीलग्रीवाय च क्षितिकण्ठाय शितिकण्ठाय च चरमः नमः कपर्दिनेः अपर्दिने च च व्युक्तकेशाय युक्तकेशाय च युक्तकेशायैतिव्युक्तकेशाय च नमः नमःसहस्राक्षराय सहस्राक्षराय च सहस्राक्षायैति सहस्र अक्षराय च शतधन्वने शतधन्वने च शतधन्वन इति शताधन्वनेः च नमः नमो गिरिषाय गिरिषाय च गिरिशायेति गिरीशाय च क्षिपिविष्टाय क्षिपिविष्टाय च क्षिपिविष्टायेति शिपिविष्टाय चरमः नमो मेधुष्टमाय मेधुष्टमाय च मेधुष्टमायेति मेधुस्तमाय केषु मते प्रीतमतनिकेषु मते च नमः नमो ह्रस्वाय हरस्वायु च वामनाय वामनाय चरमः नमो बृहते बृहते च च वर्षीयसे वर्षीयसे च चरमः नमो वृद्धाय वृद्धाय च संवृध्वने संवृध्वने च संवृध्वन इति सम् वृध्वने चरमः नमोऽपग्र्याय अग्र्याय च प्रथमाय प्रथमाय चरमः नम आशवे आशवे चाजिराय अजिराय चरमः नमः शीघ्रियाय क्षीध्रियाय च शीभ्याय शेभ्याय चरमः नम ऊर्म्याय चावस्वन्याय अवस्वन्याय च अवस्वन्यायेत्यवास्वन्याय चरमः नमः श्रोतस्याय श्रोतस्याय च तद्वीभ्याय नमो ज्येष्ठाय ज्येष्ठाय च कनिष्ठाय कनिष्ठाय चरमः नमः पूर्वजाय पूर्वजायथ पूर्वजायेति पूर्वाजाय चापराजाय अपरजाय च अपराजायेत्यपराजाय चरमः नमो मध्यमाय मध्यमाय चापगर्भाय अपगर्भाय च अपगर्भायेत्यपगर्भाय चरमः नमो जघन्याय जघन्याय च बुध्न्याय बुध्न्याय च नमः नमःभ्याय सोऽभ्याय च प्रतिसर्याय प्रतिसर्याय च प्रतिसर्यायेति प्रतिसर्याय च नमः नमो याम्याय याम्याय च क्षेम्याय क्षेम्याय उर्वर्याय च खल्याय खल्यायत धनमः नमः श्रौत्याय श्रौत्याय च अवसान्याय अवसान्यायत अवसान्यायेत्यव सान्याय धनमः नमो वन्याय वन्यायत च कक्ष्याय कक्ष्याय च नमः नमः श्रवाय श्रवायथ च प्रतिश्रवायेति प्रतिश्रवाय चणमहा नम आशुषेणाय आशुषेणाय च आशुषेधात्याशुसेनाय चाशुरथाय आशुरथाय च आशुरथादीत्याशुरथाय च नमशूराय शूराय चावभिन्दते अवबिन्दते च अवभिन्दत इत्यव भिन्दते च नमः नमो वर्मिणे पर्मिणे च प्रवरोचिने वरोचिने च नमो चे च श्रुतसेनाय श्रुणसेनाय चेनाय चेति च नमो ध्वुभ्याय दुन्दुभ्याय च दन्दुभ्यायेति दुन्दुभ्याय आहननननननननननन्याय च आहनन्याय च आहनन्यायेत्याहनन्याय च नमः नमो धृष्णवे धृष्णवे च प्रभृषाय प्रमृषाय च प्रमृषायै चिप्रभृषाय चनमः नमो दूताय दोताय च प्रहिताय प्रहिताय च प्रहिताये चिप्राहिताय धनमः निषङ्गिने च निषङ्गिन इति निषङ्गिनेन किधिमते ईषुधिमते च षुधिमत इति ऋषुधिमते चनमः नमस्तीक्ष्णेशवे तीक्ष्णेशवे च तीक्ष्णेशवदिति तीक्ष्णा चायुधिनेन आयुधिने च नमः नमः स्वायुधाय क्वायुधाय चत्वायुधायेतिषु आयुधाय सुधन्वने सुधन्वने च सुधन्वनैति सुधन्वने धनमः नमः श्रुत्याय च पथ्याय पथ्याय च तनमः नमः कात्याय च धनीभ्याय नेभ्याय च तनमः नमः्याय सोऽध्याय च सरस्याय सरस्याय च तरमः नमो नाद्याय नाद्याय च वैषन्ताय कैसन्ताय च तनमः नमः कोऽप्याय कोऽप्याय च तावत्याय अवत्याय च तनमः नमो वर्ष्याय वर्ष्याय च तावर्ष्याय अवस्याय च तनुमः नमो मेध्याय मेख्याय च विद्युत्याय विद्युत्याय च विद्युत्यायेति विद्युत्याय तनमः नी नमीध्याय वीथयाय चातभ्याय आतभ्याय च नमो वाच्याय वाच्याय च रेष्मियाय रेष्मियाय च नमः नमो वास्तव्याय वास्तव्याय च वास्तुपाय वास्तुपाय च वास्तुपायेति वास्तुपाय चेति च नमः सोमाय सोमाय च रुद्राय रुद्राय नमः नमस्ताम्राय ताम्राय चारुणाय अरुणाय चरमः नमः शङ्गाय शृङ्गाय च पशुपतये पशुपतये च पशुपतय इति पशुपतये चरमः नमहुग्राय हुग्राय च भीमाय भीमाय चरमः अग्रे वधायेत्यग्रेपधाय च दूरेऽवधाय दूरेऽवधाय च दूरेऽवधायेति दूरे वदा च नमः नमो हन्त्रे हन्त्रे च च हनीयसे च नमः नमो वृक्षेभ्यः वृक्षेभ्यो हरिक्लेशेभ्यः हरिक्लेशेभ्यो नमः हरिकेशेभ्य इति हरिक्लेशेभ्यः नमस्ताराय ताराय नमः नमः शंभवे शम्भवे च शम्भवदिति शं भवेदे च मयो भवे मयो भवे च मयोभवदिति मयः भवेदे च नमः नमः शङ्कराय शङ्कराय च शङ्करायेति शंकराय च मयस्कराय अयस्कराय च अयस्करायति मयः कराय च नमः नमः शिवाय शिवाय च च शिवतराय शिवतराय च शिवतधानेति शिवातराय चरमः नमस्तेर्थ्याय तेथ्याय चकूल्याय कूल्याय च नमः भार्याय भार्याय च भार्याय भार्याय च चरमः नमः प्रतरणाय प्रतरणाय च प्रतरधानेति प्रातरणाय चोत्तरणाय उत्तरणाय नम आचार्याय आतार्याय च आचार्यायेत्याय चानाद्याय आलाद्याय च आलाद्यायेत्याय चरमः नमःषष्ट्याय षष्ठ्याय च फेण्याय फेण्याय चरमः नमः सिकथ्याय च प्रवास्याय प्रवास्याय च प्रवास्यायै चिप्रास्याय हिण्याय हिरिण्याय च प्रपथ्याय प्रपथ्याय च प्रपथ्यायेति प्रपथ्यायमः शिलाय तिजं शिलाय च क्षयणाय क्षयणाय चभर्दिने कभर्दिने च पुरस्तयेति पुरस्तये च नमः नमो गोष्ठ्याय गोष्ठ्याय च गोष्ठायीति गोष्ठाय चतुष्याय तिष्ठाय चरमः नमस्तद्व्याय तद्वाय च तदेश्याय स्वेष्ट्याय चरमः नमःध्याय काध्याय चतुह्वरेष्ठाय गुह्वरेष्ठाय च गुह्वरेष्ठायति गुह्वरेष्ठाय च नमः नमो हृदय्याय हृदय्याय च निवेशव्याय निवेशव्याय च चरमः नमः पादं संज्ञाय पादं संज्ञाय च तरजस्याय जस्याय च चरमः न मशुष्ट्याय शुष्ट्याय च चरमः न मोलोज्ञाय्याय च सोलभ्याय कुलव्याय चूर्ण्याय परि च सूम्याय सौर्म्याय अपण्याय पण्याय च पर्णसद्याय पर्णसद्याय च पर्णषद्यायेति पर्णाषद्याय चरमः नमोऽपगुरमाणाय अपगुरमाणाय च अपगुरमाणायैत्यपगुरमाणाय चाभिघ्नते अभिघ्नते च अभिघ्नत इत्यभिघ्नते चरमः नम आक्षिधते आक्षिधते च आक्षिधत इत्याक्षिदते च प्रक्षिलते प्रक्षिलति च प्रक्षिलत नमो वः वःभ्यः खिलितेभ्यो देवानाम् देवानाम् हृदयेभ्यः हृदयेभ्यो नमः नमो विक्षीणकेभ्यः विक्षीणकेभ्यो नमः विक्षीणकेभ्यगिचिभिः क्षीणकेभ्यः नमो विचिन्वत्तेभ्यः चिन्मत्तेभ्य गितिभिः जिन्मत्तेभ्यः नम आमे आमीवत्तेभ्यो नमः आमीवत्तेभ्यमिव आनिहते आमी आनिर्हतेभ्यो नमः आनिर्हतेभ्यः आमीवत्तेभ्यलित्यामिवत्तेभ्यः आमी आमी अन्धसः अन्धसस्पते पते दरिद्रति दरिद्रन्निलरोहिता नीलरोहितेषां पुरुषाणाम् पुरुषाणामेषाम् एषां पशूनां पशूनां मा भेः फेर्मा मारो मो मेषां मोयिति मो येषां किं किं च न च नामति आममदित्या मति याते चेद्र रुद्य शिवा शुवा शिवा तनोः तनो शिवा शिवा विश्वाहवेषगी विश्वाहवेषगीति विश्वाहेणी शिवा रुद्रस्य रुद्रस्य भेषगी भेषगीतया तयानः नो मृड ऋडगीवसेगे देवस इति जीवसेदे हिमागुं रुद्राय रुद्राय तवसेरे तवसे कथवसे कभर्दिने कभर्दिने क्षयद्वीराय क्षयद्वीराय प्र क्षयद्वीरायेति क्षयति वीराय प्रभरामहे भरावहे मतिं मतिमिति मतिं यथा नः अश्यम् श्यामसत् असद्विपदे द्विपदे चतुष्पदे द्विपदेपदे चतुष्पदे विश्वम् चतुष्पदि चतुःपदे विश्वम् पुष्टम् पुष्टम् ग्रामे ग्रामे अस्मिन् अस्मिन्ननातुरम् अनातुरमित्यनातुरम् मृदानः नो रुद्र रुद्रोत उतरः नो मयः मयस्कृति कृति क्षयद्वीराय क्षयद्वीराय नमसा क्षयद्वीरायेति क्षयति वीराय नमसा विधेवा विधेवते करिचिते तच्छं शञ्च तयोः योश्च तमनुः मनुरायिधे आयुधे पिता आयुजैत्यायुधे पीता तदश्याम शश्याम तव तव रुद्र रुद्रप्रणीतौ प्रणीता मानः नो महान्तं महान्तमुत उतमा मानः नो अर्भकम् अर्भकं मा मानः नौक्षन्तम् उक्षन्तमुत उत मानः नौक्षितम् उक्षितमित्युक्षितम् मानः नोऽपितरम् पितरं मा मोतः उत मातरम् मातरं प्रियाः प्रिया मानः नस्तनुवः तनुवोर्ध्वरुद्रवीरिढः शीघ्रतिशिरीरिढः मानः न स्तोके स्तोके तनये तर हेमा मानः न आयुषि आयुषि मा मानः न गोषु गोषु मानः न अश्वेषु अश्वेषु रीरः वीरष इति मानः नो रुद्र रुद्रभावितः भावितोवधे अधीरकविष्वन्तः अविष्वन्तो नमसा नमसा विधेमा विधेमते तमिति ते आरात्ते े क्षयद्वीराय क्षयद्वीराय क्षयद्वीरायतिवीरायस्मेरित्यस्मेत्यस्तु न अधि अधि च देव देव ब्रूहि प्रोक्षधा च धनः न शर्म शर्म यच्छद्विवर्ह आह द्विवर्हा इति भीबरिह आ श्रुतम् श्रुतम् गत्वासदम् गर्तसधम् द्विवारम् गर्तसधमिति मृदा जरित्रे यदित्रे रुद्र रुद्रस्तवानः तवानो अन्यम् अन्यन्ते ते अस्मति अस्मन्निवपन्तु वपन्तु सेनाः सेना इति सेनाः परिणः नो रुद्रस्य रुद्रस्य हेतिः हेतर्वृणत्वृणत्वपरि परि त्वेषस्य त्वेषस्य दुर्मतिः दुर्मतिरघायोः दुर्मतिरिति दुः मतिः अघायोरित्यघायोः य तनयायतिः नः सुमनाः सुमना भव सुमनानि सुमनाः भवेति भव परमे वृक्षे वृक्ष आयुधम् आयुधं निधाय निधाय कृत्यं कृत्यं वसानः वसान आ पिनाकं पिनाकं बिभ्रति बिभ्रदा आविहि विहितिभिः विलोषिता विलोषित नमः विलोहिते दिवि लोहित नमस्ते यास्ते सहस्रम् सहस्रगुम् हेतयोऽन्यम् अन्यमस्मति अस्मन्निवपन्तु वपन्तु ताः ताइिताः सहस्राणि सहस्रधा सहस्रधा बाहुवोः सहस्रधेति सहस्राधा बाहुवोस्तव तव हेतयः हेतयेति हेतयः ता सा ईशानः ईशानो भगवः इति सहस्राशः ये रुद्राः रुद्राधि अधिभूम्याम् भूम्यामिति भूम्याम् केदा सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्रयोजने धन्मानि तर्मसि तर्मसीति तर्मसि अर्माहति महत्यर्णवे अर्णवे अन्तरिक्षे अन्तरिक्षे भवाः भवा अधि अधित्यधि नीलग्रीवा श्रीतिकण्ठाः नीलग्रीभादिति च नील श्रीभाः श्रीकण्ठाः शर्वाः श्रीकण्ठादिति चिकण्ठाः शर्वा अधः अधः क्षमाचराः क्षमाचरादिति क्षमाचराः नीलग्रीवाश्रीतिकण्ठाः नीलग्रीवारिधिलाग्रीवाः श्रीकण्ठादिवम् ह्रीयकण्ठादि श्रीकण्ठाः दिवगुं रुद्राः रुद्रा उपश्रिताः उपश्रिथा इत्युपश्रिताः ये वृक्षे तु वृक्षे तु तस्मिन् जराः तस्मिन् जरा निरग्रीवाः नीलग्रीवा विलोभिताः नीलग्रीभारिथिनीलाग्रीवाः विलोहिता इति विलोहिताः ये भूतानां भूतानामधिपदयः अधिपतयो विशिखासः अधिपतयमित्यधिपतयः विशिखासः कपर्जिनः शिशिखास इति विशिखासः कपर्जन इति कपर्दिनः ये अन्नेषु अन्नेषु विविध्यन्ति विविध्यन्ति पात्रेषु विविध्यन्तीति विविध्यन्ति पात्रेषु पिबथः पिबथो जनानि जनानिति जनानि हे पथां पथाम् पथि रक्षयः पथि रक्षय ऐरभसाः पथि रक्षय इति पथि ऐरकृ युर्व्यधः तिव्यध इति युर्वधः ये तीर्थानि तीर्थानि प्रचरन्ति प्रचरन्ति शृकावन्तः प्रचरन्तीति प्रचरन्ति शृकावन्तो निषञ्जिणः शृकावन्त इति शृकावन्तः निषङ्गिन इति निसञ्जिणः य एतावन्तः एतावन्तश्च य भूयावन्तः भूयावन्तश्च दिशः दिशो रुद्राः रुद्रावितस्थिरे वितस्थिर इति वितस्थिरे तेषां सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्रायोजने अवधन्वानि धन्वानि तन्मसि तन्मसि इति तन्मसि नमो रुद्रेभ्यः रुद्रेभ्यो ये ये पृथिव्यां पृथिव्यां ये येऽन्तरिक्षे अन्तरिक्षे ये ये दिवि दिव्येषाम् येषामन्नम् अन्नं वातः वातो वर्षं वर्षमिषवः इषवस्तेभ्यः तेभ्यो दश दशप्राचीः प्राचीर्दश दश दक्षिणा दक्षिणादश दिशप्रतीचीः प्रतीच्येर्दश यशोदीचीः उदीच्येर्दश यशोध्वाः ऊर्ध्वास्तेभ्यः तेभ्यो नमः नमास्ते ते नः नो प्रणयन्तु प्रणयन्तु ते तेयं यं विष्मः विष्मोयः यश्च तदः नो द्वेष्टि म्बः भोजम्भेभे दधामि दधामि त्र्यम्बकम् यामहे त्र्यम्बकमिति त्रि अम्बकम् यामहे सुगन्धिम् सुगन्धिम् पुष्टिवर्धनम् सुगन्धिमिति सुगन्धिम् पुष्टिवर्धनमिति पुष्टिवर्धनम् कुर्वारुकमिव इव बन्धनात् बन्धनान् मृत्योः मृत्योर्मुक्षीय मुक्षीहमा आमृता आदि अमृतादित्यमृता आधि यो रुद्रः रुद्रो अग्नौ अग्नौ यः यो अप्सु अप्सुयः अप्सुत्यभुप्सु य ओषधीषु ओषधीरुयः यो रुद्रः रुद्रो विश्वा अविश्वाभुवना भुवनाविवेश आविवेश तस्मै आविवेशेत्या तस्मै रुद्राय रुद्राय नमः नमो अस्तु अस्मित्यस्तु